भोगा जय सत्रमासता शृङ्गास्सते शृङ्गानि न जायन्ता लितिका मे नतासान् दशमासा निषण्मासन्नथ शृङ्गाह न्यजायन्तता उदतिष्ठन् नरात् स्मेत्यथया सान् माजायन्ततासंवत्सरमाप्त्वदतिष्ठन्नरात् स्मेजासां चाजायन्तया साहञ्च नता उहदेरुदतिष्ठन्नरात् स्मे त्सरो यदेवं विद्वांस संवत्सरमुपयन्तिर्भ्रुवन्त्येवरस्मात्षिकौ मासौ मत्वाचरति सत्राभिजित गृह्यस्ति तस्मात् संवत्सर गृहे क्रियते तदाप्तमवरुद्धमभिजितं समुद्रं वाजेते प्रप्लवन्ते संवत्सरमुपयन्ति समुद्रस्य पारण्णपश्च वै सततबुदे संवत्सरो वै समुद्रस्तस्यैतत्पारं यदति रात्रौ ये वं विद्वाघुंससंवत्सरमुभयञ्चमार्ता देवोदृशं गच्छन्तीयं वै पूर्वोदिरात्रोऽसामुत्तरो मनः पूर्वो वाुत्तरः प्राणः पूर्वो बाणुत्तरः प्ररोधनं पूर्वबुधयनमुत्तरो ज्योतिष्कामोदयेश्वानरोदिर ेवर्गस्य लोकस्यानुख्या चतुर्विपुंशः प्राजणीयो भवति चतुर्विपुंशति अर्धमासाः संवत्सरः प्रयन्त देव संवत्सरे प्रतिष्ठन्ति तस्य त्रीणि च शतानि संवत्सरस्य रात्रे एव संवत्सरस्य स्थित्या अरिष्ट्यामुत्तरैरहोभिश्चन भवन्ति प्रतिष्ठन्तिैवतोजनमारज्ज्योतिरथितो भवति विमोचनमेव रक्षिस्तेवधद्विमोकङ्क्यथो ज्योतिषैव गं गोविङ्गन्दि ब्रह्मवादिनो वदन्त्यासते केन यन्ति देवलानेन पथेति ब्रूयाच्छन्दां शिवै देवयानः पन्था गायत्री तृष्टुब्जगती ज्योतिर्वै गायत्री गौ स्पृष्टुगायब्जगति यदेते स्तो माभवन्ति देवलानेन नैव तत्पथायं दिवमानगिं सामभवति यन्त्यन्या अन्यारुचो भवन्ति मनुष्यलोको वाु च मनुष्यलोकदेवान्येवरोहन्तो यन्त्यभिवत्तो ब्रह्मसामं भवति सुवर्गस्य लोकस्याभिवृत्या अभिजित् भवति सुवर्गस्य लोकस्याभिजित्यै विश्वजे भवति विश्वस्य नित्यै मासि मासि पृष्ठान्यजन्ति मासि वीर्यम् दधति मासाम् प्रतिष्ठित्वा उपदिष्टान् मासाम् पृष्ठान्युपजन्ति तस्मादुपदिष्टादो शरः फलम् गृह्णन्ति गा वो वाजेदच्छत्रमासता शृङ्गासरे शृङ्गाणि सुशासन्ते स्तासां दशमासा निशं मा आसन्न सृङ्गा न्यजायन्दता अब्रुवन्नरा स्म तिष्ठा मावतं का स्महिलेन कामे न्यशता मेतासामुत्वा अब्रुवन्नर्धा वा यावतेर्वासा महाय वै द्योत्तिष्ठा मेतिकासां द्वादशे मासि शृङ्गाणि प्रावर्तं द श्रद्धया वा श्रद्धया वातारिमायास्तु परा उभय योगावतानयाश्च शृङ्गाण्यसंवणयाश्चोर्जमवारुन्धतध्नोदि दशसु मासोत्तिष्ठं धनोदि द्वादशसु एं वेद पद न खलु वा तद्वादेतदिधमयमन्तस्मादेतद्दोसमी प्रथमे मासि पृष्ठान्युपयन्ति मध्यम उपयन्त्युत्तम उपयन्ति तलाहुर्यां वै त्रिरेगस्यापसेदन्ति दह्रं वै सापराभ्यां चकृतसाधोद्वादसकृत्व उपसेदन्तेति संवत्सरं संवाद्योत्तमे मासि सकृत्पृष्ठान्युपेयुस्तद्यमाना यज्ञं पशो समुद्रम् बाले तेन बालमपारम् वप्लवन्ते सम्वत्सरमुपयन्ति यद्बृहद्रथन्तरे अण्र्जुर्गथा मध्ये समुद्रस्य प्लवमण्वर्जयुस्तादृक्तदनुत्सर्गम् बृहद्ग्रथन्तराभ्यामित्वा प्रतिष्ठाम् गच्छन्ति सर्वेभ्यो वै सामान्यरुच भवन्ति मनुष्यलोकोमारुचो मनुष्यलोकादेव नयन्त्यन्यदन्यत्साम भवति देवलोको वै साम देव लोकादेवान्यमन्यम् मनुष्यलोकम् प्रत्यवरोहन्तोजन्ति जगतीमद्रगुपजन्ति जगतीं व्रेच्छन्दाकं च प्रत्यवरोहन् जागरणं ग्रहाबृहत्पृष्ठानित्रयस्त्रिगुंशग्रस्तोमास्तस्माज्याजागुं सङ्गणीतान् दिरेष्वकर्म्यते विश्वाह्येव न कर्मा नियजमान अवरुन्धत आदित्यो गृह्यत इजम्बा अदितिरस्यानेव प्रतिष्ठन्तिन्योन्यो निष्येते मिथुनत्वाय प्रजात्यावान्तरं वै दश यनः सत्रस्यमुवाच यद्दश रात्रौ यद्दश रात्रभगति सत्रस्य अध्यासो यदेव पूर्वेश्वः सुवि नाम क्रियदेवस्यैवैषा शान्तिः यदि सोमौ सकं सुतौ स्याताम् हदिरात्रिजे प्रातरणुवागमुपातुर्यात्तोवाचम्बोर्व देवताः पूर्वच्छन्दाे ऋषण्वतीं प्रतिपदं कुर्यात्पादस्तवना देवैषामिन्द्रं वृन्दे खल्वाहुः सवनमुखे सवनमुखे कार्ये सवनमुखात्सवनमुखा देवैषामिन्द्रं वृन्दे संवेषायोपवेशाय कायक्रिया सृष्टुभो जगत्या अनुष्टुभः पङ्क्त्या अभिभूच्ये स्वाहा छन्दानं शिवै संवेष उपवेश्छन्दो ेवैषा छन्दंसि वृन्दे सजनी रघुं सस्यं विहुं सस्यमजस्य गजा सुं सस्यमेतावद्वा अस्ति यावदेतद्यावदेवास्तिपदेशां वृन्दे प्रापस्स वने कलसौर्येदवेष्णवेष श्रीविष्णव देशस्तु वीरणद्वैरज्ञश्चातिरिच्यते विष्णुं तच्छ्रिपि विष्टमभ्यतिरिच्यते तद्विष्णुश्रिपि विष्टोऽतिरिक्तदेवातिरिक्त तिरिक्ते नैवातिरिक्तमाप्त्वा वरुन्धते यदि मध्यन्ति नेधीर्ये नव सामगुरुजर्वषकारो वै यज्ञस्य प्रतिष्ठा प्रतिष्ठामेव वै न जमयन्ति यदि तृतीयसमन एतदेव षडहैर्मासान् सम्पाद्या हृत्सजन्ति षडहैरिमासाः ्यर्धमासे सम्पाद्या हृत्सृजन्त्यर्धमासे मासाम्प्यन्त्यमाभास्यजामासाद्या हृत्सृजन्जाहिमासा सम्पश्यन्ति पौर्णमास्यामासाम् सम्पाद्या हृत्सृजन्ति पौर्णमास्याहिमासा संवश्यन्ति यो वै पूर्णासिं पूर्णा दुदशति प्राणमस्मिन् सदजादिपौर्णमास्यमासा संवाद्या ह सृजन्ति संवत्सरा जय तत् प्राणन्दधति तदनुसत्रिणः प्राणन्ति यदहर्णोत्सृजय जलो चलं संवत्सर विपतेदार्तिमाच्छ जत्पौर्णमास्यमासाम् सम्पाद्याहरत् सृजन्ति संवत्सराज ैव तदुगानन्दसतिमाच्छन्ति पूर्णमा सेवे देवानागुं सुतोलिपूर्णमास्यामासाहासंपाद्याहर सृजन्ति देवानामेव तज्जज्ञेन यज्ञं प्रत्यमरोहन्ति विवादे तज्जज्ञं छिन्दन्ति यक्षणः सन्ततं सन्तमथाहृ देवताभिरेव यज्ञकं सन्तं वन्दियन्ति वादेते शवनान् देहरुत्सृजन्ति खरु वादेतत्सवै यत्सान्नाय्यं यत्सान्नाय्यं भवति तेनैव सवनान्न समबुजभक्षयन्त्येतत्सवं वादेता गच्छन्ति देहरुत्सृजन् जो देवता अवरुन्धते अष्टाकपालान् राजस्सवन देवादशकपालान् माध्यन्दिने सवने द्वादशकपालागस्त्रिजेन सवने छन्दागस्तेवाप्त्वावरुन्धते वैश्वदेवञ्चलं धृदेवनसवने ्रह्मवाजिनस्तद्वाहुरुत्सृज्य मेत्यमाभास्याज्यमित्र्याहुरे यज्ञं वुजिते त्वाणोत्सृज्ये नित्याहुर्ये यज्ञं जात प्रथमाभ्यष्टगातस्यामुत्सृज्यमित्याहुरे मासोऽष्टमुत्सृजयत्सृजय ध्ये षडहस्य सम्पद्ये देवाद्यस्तस्मिन्नुच्छृजयजुष्टधग्नसुमदेव रोडासमष्टाकबालन् निर्वेजुरीन्द्रन्देन्द्राजमरुत्वदेव रोडासमेकादशकपालं वैश्वदेवन्द्वादशकपालमग्नेर्वैव सुमतः पुरातस्सवनै दग्नजयवसुमदेव रोडासमष्टाकबालन् निर्ववन्ति देवतामेव कुर्वन्ति सपणमष्टाभिर्भयन्ति यतयेन्द्रं दिभवतीन्द्रमेव च्या वजन्ते इन्द्रस्य वै मरुत्वरोमाध्यञ्जनम् सवनै यदिन्द्राय मरुत्वते पुरोणासुमेकादशुकबपालम् निर्ववन्ति देवतामेव तद्भागिनेः कुर्वन्ति सवनमेकादशभिर्भजन्ति विश्वेकाम्बै देवानाम् प्रभुवताः नृदेकसवनै यद्वैश्व देवन् द्वादशगपालम् निर्ववन्ति देवता एव तद्भागिनेः कुर्वन्ति सवनन् त्यम् पशुमालभन्ते यज्ञो वै प्रजापदयज्ञस्याननुसर्गायाभिवर्तयितः षण्मास ब्रह्मसामम् भवति ब्रह्म वा अभिवर्त्वा ब्रह्मणैव तत्सु वर्गम् लोकमभिवर्तयन्तोजन्ति प्रतिकूलमिवहितस्सु वर्गो शिक्षा न अस्मिन् पुरुहो दयामि जीवा ज्योतिरजिमहेत्यमुद आयतागम् ब्रह्मसामं ब्रह्म सामम् भगत्ययम् वै लोको ज्योतिःप्रजा ज्योतिरिमेव तल्लोकम् पश्यन्तोऽभिवदन्त आयन्ति देवानां वा अन्तं जग्मुषामिन्द्रियं वीर्यमपाक्रमत्तत्क्रोशेणावारुन्धत तत्क्रोशस्य क्रोशत्वं यत्क्रोशेण चात्वालस्यान्ते स्तुवन्ति जज्ञस्यैवान्तं घ्रत्वेन्द्रियं वीर्यमपरुन्धते शन्द्रस्य यस्यान्द्रेः पुरस्ताच्छदस्तुवन्ति पश्चाद्यज्ञस्यैवान्तं गत्वा श्व गभाजो भवन्ति नमभिरगायति न भै पुरुषे प्राणाः प्राणानेव यजमानेषु दधाति सर्वा इन्द्रियो भवन्ति प्राणेष्वेवेन्द्रियं दधत्य प्रतिशताभिरुद्गायति तस्मात् पुरुषः सर्वान्य शीर्ष्णाङ्गानि ावगुन्थत सप्तदशं बृहदण्माद्यस्यावयुज्य अथो प्रैवते न जागन्द्रं द्विवदासु प्रजक्षेत्यै पद्मज उपगायन्ते वित्वाय प्रजाते प्रजापदृजतसो गामजतासामहुं राज्यं परे जामिजितासागुं राजनेनैव राज्यं पर्यये त्वद्राजनस्य त्वं यद्राजनं भवति प्रजानामेवन्तिप्ति पञ्चभिस्तिष्ठन्तस्तुवन्ति देवलोकमेवाभिजयन्ति दे पञ्चभिरासे नामनुष्यलोकमेवाभिजयन्ति दे दे दश सम्पर्ध्यन्ते दशाक्षराभिरानं विराजभिराजैवान्नाज्यमवरुन्धते पञ्चधाभिनिषद्यस्तुवन्ति पञ्चदिशो दिक्षेर तिष्ठन्त्ये कैकजास्तु तया समायन्ति दिग्धेवान्नाज्जगुं सम्भरन्तिभृत्यते च आत्मन् दधते तस्मादेकः प्राणः सर्वाण्यङ्गाहन्यष्यन् कुरुत एवमेव प्रजानामुत्तमा भवन्त सन्तिमुद्गाहति साम्राहाज्यमेव गच्छन्ति न्तिम् नाकस्यैव पृष्ठकम् रोहन्ति गोर्छावद्भर्जुर्बध्नस्यैव पृष्ठपम् गच्छन्त्ये तावन्त्वमै देव लोकास्तेष्वेव आक्रमणमेव तत्से त्वचमाणाः कुर्वते सुभर्गस्य लोकस्य समष्ट्यै अनर्क्येण वै सहस्रशः प्रजाभजः प्रजा असृज तताब्लाहन्देन लोतामवारुन्धय दर्क्यम् भवति प्रजादेव भवति प्रजाभ्यदेव सृष्टाभ्यविरान् लोतामवरुन्धते तस्माद्यागुम् समागुम् सत्रगिम् समृद्धम् क्षोधुकास्तागुम् समाहम् प्रजायषग्गृह्या सामोर्जमार्जते यागुम् समान्यक्षोदुकास्ते जमालदलमुत्क्रोधं कुर्वते यथा बन्धान्ममुानामुत्क्रोधं कुर्वत एवमेव तद्यजमानादेव बन्धान्ममुचानामुत्क्रोदं कर्वतमोर्जमात्मं तथा नाणश्च ततन्तर्भवति सतायुः पुरुषश्चेन्द्रुजायुष्येवेन्द्रजे प्रजतिष्ठन् याजुन्धामन्दनभिजितस्य विजित्येतुं दुभेन् समाघ्नन्ति परमावा ुभौ परमामेव वाचमवरुन्धते भो मिन्दुमान्ति देवे माम् वाक्प्रविष्टातामेवपरुन्धते छोदिमामेव जयन्ति सर्वा वाचो वदन्ति सर्वासां वाचामवरुध्या आद्र्यचम् मन्यायच्छते इन्द्रियस्यावरुद्ध्या आन्यः क्रोशति प्राण्यश्चिंसति चाक्रोशति पुनात्येवैमान्धयः प्रशविंसति भूतेष्वेव ृषि कृतम् च बाले ते देव कृतम् च पूर्वैर्मासैरवरुन्धते यद्धूतेच्छताम् सामानुभवन्ति फलस्यावरुद्धे यन्ति बालेते मिथुनाद्ये संवत्सरमुपयन्त्यन्तर्वे लिमिसुणौ सम्भवतस्ते नैव मिथुनान्नयन्ति मावभिन्दन्ति पाप्मानमेवेषामव भिन्दन्ति मा पराच्छाक्षेद्याः सम्प्रत्येवेषाम् पाप्मानमवभिन्दन्ति च कुम्भानि दास्यो मार्जालीयम् परिवृच्छन्ति पदोनिघ्नति हृदम् मथुङ्गायम् च मधुवैदेवानाम् परममन्नाद्यम् परममेवान्नाद्यमवरुन्धते पदोनिघ्नन्ति महीरामेवेषु दधति पृथिविरे स्वाहान्तरिक्षायस्वाहा स्वाहा संप्लोष्यते स्वाहा संप्लवमानायस्वाः संप्लुधायस्वाः मेघा ुष्यते स्वाहा मेघायते स्वाहा मेघिताजस्वाहा मेघाजस्वाहा निहारायस्वाहा निहाकारे स्वाहा प्रासदायस्वाहा यस्वाः संविद्यातमा स्वाहा स्तनयिष्यत् स्वाहा स्तनजद स्वाहोऽग्रव्यस्तनज स्वाहा वशिष्यत स्वाहा वर्षत स्वाहाभिवर्षत स्वाहा परिवर्षत स्वाहा संवर्षत स्वाहा वरि पृष्णदे स्वाहो गृहे स्वाहोद्गृह्णते स्वाहोद्गृहेता यस्वाहा स्वाहा विप्लवमाणाय स्वाहा स्वाहा दक्षते स्वाहा दपदे स्वाहोग्रमादवदे स्वाहा चतुर्भ्य स्वाहा समभ्य स्वाहाङ्गिराभ्य स्वाहा व्यजेभ्य स्वाहा गाथाभ्य नाराशपुंसे जस्वाहाजस्वाहा सर्वस्मे स्वाहा दवदे स्वाहा दन्दकाय स्वाहा प्राणिने स्वाहा प्राणाय स्वाहा मुखवदे स्वाहा मुखाय स्वाहा नासिगवदे स्वाहा नासिकाल स्वाहा क्षण् स्वाहा मक्षिकाय स्वाहा कर्मिणे स्वाहा कर्मकाल स्वाहा श्रीर्षम्बदे स्वाहा प्राणते स्वाहा वदते स्वाहा वदते स्वाहा पश्यते स्वाहा पश्यते स्वाहा शृण्व स्वाहा शृण्व स्वाहा मनस्विन् स्वाहा मनदे स्वाहा वेदस्मिने स्वाहा वेदस्काय स्वाहा प्रजाभ्य स्वाहा प्रजनमाय स्वाहा लोमवदे स्वाहा लोमकाय स्वाहा स्वाहा पक्काय स्वाहा च मन्वदे स्वाहा चर्मगाय स्वाहा लोहितवत स्वाहा लोहिताय स्वाहा मागुं सन्वत स्वाहा मागुं सगाल स्वाहा स्नावभ्य स्वाहा स्नावकाद स्वाहा स्थन्वत स्वाहा मस्थिकाल स्वाहा मज्जन्वत स्वाहा मज्जगाल स्वाहाङ्गिले स्वाहा नङ्गाल स्वाहात्मन स्वाहा ने स्वाहा सर्वस्मै स्वाहा कस्मादिमग् सत्त्वादिमत्त्वविष्णुस्वादिमत्त्वस्य यज्ञस्यर्थ्यैवम् सन्नत्या अमुष्मै कामायानुषे त्वात् प्राणायत्वा प्राणायत्वा ज्ञानादत्वाष्टेत्त्वा रय्ये त्वा राधसे त्वा घोषादत्वा घोषालत्वाराग्घोषायत्वा प्रच्युच्चे त्वा अननेकागत्रागत्रैराधन्तराजवासन्तायाष्टागपाल चन्द्राजत्रयेष्टुभाज पञ्चदशा जमार्हता अग्रयेष्मारेकादश गो विश्वेभ्यो देवेभ्यो जागतेभ्यः सप्तदशेभ्यो वैदोदेभ्यो मारुषिकेभ्यो द्वादशकपालो मित्रावरुणाभ्यामानुष्टुभाभ्यामेकविगुंसाभ्यां मयि राजाभ्यांसा म्बयस्या बृहस्पतजयपान्ताय त्रिनवायशाय हैमन्तिकाय चतुः समित्र आदिच्छन्दसाय त्रयस्त्रिपुंसाय रैमताय श्रीशिराय द्वादशकरपालो नित्ये विष्णुपत्न्ये चतुरग्नजय वैश्वानराय द्वादशकरपालो नुमत्ये चरुःकाय यो वा अग्नावग्निप्रह्रियते यस्तसो मोराजातयो देश आतिथ्यं यदग्नीशोमीजो शैष दे रुद्रोयश्चीयते यत्सञ्चितेऽनावेतानि हवेगं शेन जर्वपे देशदेव रुद्रोषाः तवपोच्छायप्रजानयतमानस्याभिमन्येत यत्सञ्चितेऽज्ञावेतानि हवेगुंशि नर्वपतिभागधेयेनैवेन पुंशमयति नाश्च रुद्रोषाः जां पशो नभिमन्यश हवें भवन्ति न वै पुरुषे प्राणानाभर्दशमे प्राणानेव दशाच्यथो दशाः क्षदा विरादन्नं विराज विराज्यवान्नाद्य प्रतिष्ठच्युदुभर्वादय प्रछन्दोभिस्तमैः पृष्ठैश्च गव्यदित्या हव्यदेवानि हवेयुं नर्मवच्चिद्भिदेवै नछन्दोभिस्तमये ृष्ठेश्चिनुते दिश्रुषुवाणेनाभिजित्या जित्या हरिजदेतानि हरे दिशामभिजित्या एतया वा इन्द्रम् देवा अयाजयन्तस्मादिन्द्र सभ एतया मनुष्यास्तस्मा मनुसवो यथेन्द्र देवा न्या यथा मनर्मनुष्याणामेवं भवति गजेवं विद्वानेतजेष्ट्यायते दिग्वती पुरोनुवाख्या भवन्ति जित्ये इरह्मतो निमिषतो महित्वैकयिद्राजालतो बभूव यईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा उपजान विधेयज प्रजापतज वाजुष्ट गृह जोक्ष तेजस्मे तामहि प्रजापतज स्वाहात्मताप नश्वपासतेश्चात मृत्यु तस्म दवायेम उभयामगृहे दा प्रजापतजय त्वाजुष्टम् गृह्णामितश्च ते पृथिवेमहिमौषधजो वनस्पदजो रूपमग्निस्ते तेजस्तस्मै त्वामहिम्ने प्रजापतजय स्वाहा आ ब्रह्मण् ब्राह्मणो ब्रह्म ुः सप्तिस्पुरन्धिर्योषा जिष्णोरथेष्ठा सभेजोजुवास्य जजमानस्य वीरो जाजतान्निकामे निकामेनः पर्जन्यो पर्षरुषणिन्यो न घोषधजः पच्यन्ता योगक्षेमा नः कल्पता जे पृथिवे मग्नियुजमगृतवाज्यर्वाक्राणे वाज्यन्तरिक्षं वाजमगृतभाज्यर्वाद्याम् वाज्याक्रगस्तवाज्यर्वाग्निस्ते वाजिनयुङ्घरभय स्वस्ति मासं पारय वाजुस्ते वाजिनयङ्मत्वारभ स्वस्ति मासं पारया नित्यस्ते वाजिनयं स्वस्ति मासम् पादय प्राणधिगसि प्राणम् मे दृगम् हं जानिगसिं जानम् मे दृगम् भावानधिगस्य पानम् मे <Sess> जज्ञिबीजम्बष्टामर्जन्यः पक्का सत्यगुंसि पिप्पला ओषधयस्मधितरमेज पुंसोमसनोहास्मध्यक्षमन्तलक्षकुंसु पावः पवमानस्तोमस्थानाद्य शिवमसोदव निरथामोर्वमहोरात्रे पञ्चदशिनार्धमासास्त्रिपुंशिवमासा लब्दायदवः शान्तः ग्नेयोष्टाकपालः सौम्यश्चरुः सा वित्रोऽष्टाकपालः चरु रौद्रश्चरुरग्नरे वैश्वानराज द्वादशकपालो मृगाखलेन दिनागच्छदग्नजेगुम् होमु चेष्टाकपालः सौर्यम् पयो मायव्य आज्यभागः अग्नवेगुम् होमु ्यावायो सावित्र आगोमुग्भ्या चुरश्मिभ्यामागोमुग्भ्यान् ध्यानामरुद्भज न मुग्भ्यः सप्तकपालो विष्मेभ्यो देवेऽभ्यज न मुग्भ्यो द्वादशकपालो नुमत्ते चरुरग्नदेवै स्वानदायद्वादश कपालोऽद्यावापृथिवेभ्यामगुम्भो मुग्भ्यान् विकपालः अग्नदेशमनमत्पृसुर्येशमनमध्यथाज्ञः पृसयुजा समनमदेवं मह्यं भद्रा सन्नतजः सन्नमन्तु वाजवे शमनमदन्तरिक्षा दशमनमध्यथा वायुदन्तरिक्षणसूर्य दशमनमध्यवेशमनमद्यथा सूर्यो दिवा नक्षत्रेभ्यश्रमणमद्यथा चन्द्रमा नक्षत्रैर्वरुणादशमनमदध्यश्रमणमद्यथा वरुणम् साम्ये समन मद्विचे समन मद्यथा सामर्चा ब्रह्मणे समनमक्षत्राय समनमद्यथा ब्रह्मक्षत्रेण राज्ञे समनमद्विषे समनमध्यथा राजा विशारथाय समन मदश्रेभ्यस्तमन मध्यथा रथोश्वे प्रजापदजय शमनमद्भूतेभ्यस्तमनमद्यथा प्रजापदद्भूते भद्रा सन्नतयः सन्नन्तु ये ते पन्थानः सवितः सो हे मो वितता अन्तरिक्षे तर्नो अद्य वसिभिः सुखेऽधि रक्षा च नो अधृजदेव ब्रूहि नमो भाजवे क्षक्षिते लोकस्मते लोकमस्मै यजमानाय देहि नमः सूर्याय वीक्षिते लोकस्मते लोकमस्मै यजमानाय देहि यो वा अश्वस्य मेध्यस्य शिर वेदशे ऋषण्वान्मेध्यफलत्युषा वा अश्वस्त्य मेध्यस्य शिरः सूर्यश्चक्षर्वतः प्राणश्चन्द्रमाश्चिशः पादा स आत्मा रश्मयश्चेशा नक्षत्राणि गोमन्तारका अस्थानि नभो मा गुंसान्योषधो लोमानि वनस्पदजोपाला अग्निर्मुखम् वैश्वानरोत्तम् समुद्र उदरमन्तरिक्षम् पायुद्या वा पृथिवी आण्डोग्राभाष मोरतो यजन् सद्य द्योतते यद्विधोमुत् तत्स्तनयति यन्मेहति तद्वदश देवागेवास्य बालहर्वा अश्वस्य जायमानस्य महिमा पुरस्ता जायते रात्रिलैणम् महिमा पश्चादनु जायत ये तौ वै महिमा भावश्वमभितः सम्बभोवतुर्वासुरान् वाजे गन्ध श्वश्च यो निः समुद्रो बन्धुः हरिः पो आभ्यगेर्भरिगततो नवो नमाद्यायल हरिवो वर्धमानः यदा स्तोदृग्भ्यो महि गोत्रानुजासि ब्रह्मप्रमादिष्मतन्मो मासीत् ॐ शान्ति तिः साम् तिशन्तिः यदक्षरपदभ्रष्टम् मात्राहीनम् तु यद्भवेत् तत्सर्वम् क्षम्यताम् देवनारायणनमोऽस्तुते दे। विसर्गबिन्दुमात्राणि पदपादाक्षराणि च न्यूनानि चातिरिक्तानि क्षमस्वपुरुषोत्तमा स्वस्ति प्रजाभ्यः परिवारयम् दाङ्ग्यायेन भाग्येन महेम् महिषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् बोगाः समस्ताः सुखिनो भवन्तु